मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं फोर्टि नैन् श्रीगणेशाय नमः गृत्समद उवाच विष्णुना सहिदो सहितो देवैस्तदत्सर्वैः सुसंवृदः गणैः सुदारुणैस्तत्र यय्यौ शम्भूरणस्थलं समागतम् शिवं ज्ञात्वा तारकक्रोधसंयुतः उवाचदं महादेवं गर्वयुग्रेन चेतसा तारक उवाच किमागदोसि सङ्ग्रामे मदेन त्वं सदाशिव सिंहेन शशको युद्धं किं करिष्यति मां वद मदासुरस्य दासोऽहं त्वां हनिष्यामि निश्चितं संहारकारिणं सद्यो महासंहारकारकः वचश्रुत्वा त्रिशूलेन तारकः शम्भुनाहतः स मृतस्तत्क्षणा दैत्यः भग्नवृक्षवद ततश्चक्रेण देवेश केशवो दैत्यनायकान् मारयामास संगृद्धः सकलान्यत्र तत्र च ततोऽदिभयसंयुक्ताः पलायन्तदिशो दैत्याः प्राणपरीक्षार्थम् हाकारकरा देवैस्तत्र धृता दैत्या मृतास्तारकमुख्यकाः शुक्रस्य दुभयाच्छ्रेष्ठास्त्यक्तास्ते विवरे स्थिताः देवेशानां च दैत्ये दृष्ट्वातीव पराक्रमं बाणस्त्रिपुरशङ्खौ च ससैन्या आयुर्मृधे कोलाफलं प्रकुर्वाणाशङ्कशब्दैः समन्ततः ववृषुशस्त्रधाराभिर्वर्षाकाले यथा वर्षाकाले ततः परस्परं युद्धं नियतं संबभूवः देवानां चैव दैत्यानां विनाशकरमद्भुतम् बाणसूर्यं ययौ क्रुद्धशङ्खो विष्णुं महाबलः रुद्रं चत्रिपुरो त्रिपुरो वेग परसैन्यनिबर्हणः अन्ये च शतशस्तत्र दैत्यादेवान् समायेयुः गदितुं न भवेच्छक्यं बहुत्वाद्युद्धमद्भुतं क्रोधयुद्धा निजघ्नस्ते दानवा दुख्य का श्रास्त्र क्रुद्धा वृक्षे पर्वतर्मुे दैत्याल्ट ज्ञावा देवा महाबला युक्ता शस्त्रणयसम युद्धम सञ्जातं दारुणं महद देवसेना तदो भग्ना भयभीदा देवसेनाततो भग्नाभयभीदा समन्ददः क्रोध क्रोधयुद्गो महाबलं गदया त्रिपुरं तत्र ततः परमदुर्जयं जखानगदया शम्भुं सोऽपि तं च पराक्रमी गदायुद्धं महत्तत्र बभूवादिभयानकं तदस्त्रिशूलखादेन हतो दैत्यः पपातः त्रिपुरो मूर्च्छयात्यन्तं पीडितशङ्करेण सह ज्वालयारविणा तत्र बाणोभूमौ चक्रेन विष्णुना दुष्टशङ्कः समर्दितोऽभवत् धृत्वा तान् दैत्यमुख्यांश्च चिक्षिपुर्विवरेमराः पाशैर्बद्ध्वा तदो दुष्टान् पुनरुत्पादशङ्कया तदो दैत्या कदा सर्वे देवैर्दैवगणैर्मृधे मृदा मुमोषवः केजिच्छरणं ते ययुः सुरान् विजयं प्राप्य देवेन्द्राभर्षिताः सं बभूविरे जगर्जो जयशब्देन प्रातःहाप्रचक्रिरेप् ततो मदा सुरक्रुद्धो ज्ञात्वा वृत्तान्तमद्भुतम् संरक्तनयनो दुष्टो ययौरणविधित्सया शुक्रेण सहिदः सोऽपि महावीरैः समावृतः रथाजूटस्वपुत्रैश्च सङ्ग्रामे सन्दर्धे मनः तदस्तं दैत्यमुख्यं वै तनयाश्च समाययुः सङ्ग्रामार्थमहावीर्यास्त्रयो देवैः शिवादिभिः धनप्रियश्च सङ्ग्रामे सूर्यं विव्याध दिव्याधसायकैः उवाच गर्वसखितो रविं त्रैलोक्यभाविनम् धनप्रिय उवाच शृणु दुष्टार्य मंस्त्वमेवचनं हितकारकं गच्छशीख्रमःबाहो नो चेन् मृत्युमुपेष्यसि त्वया दैत्याहदा पूर्वं भुङ्क्ष्वतेषां फलं महद न मुञ्जामि महादुष्टजीवन्तं त्वां च काश्यप तद सूर्येण हदो दैत्यो महाबलः पपादमूर्च्छयाविष्टः पुनः संज्ञां च तोऽलभद आगत्य कश्यपं दैत्यपुत्रो वेगसमन्वितः खड्गेन तीक्ष्णधारेण जखान दृढमञ्जसा दृढाकादेन सूर्यस्य पदिदो मूर्चया भृशं तं धृत्वा विजयी दैत्यपुत्रश्च स्वस्थलं ययौ प्रणम्यपिदरं पुत्रो ननन्तः धनप्रियः पाशैर्बध्वा दृढं सूर्यं चिक्षेप विभरे सुरः विलासीविष्णुमागत्य क्रोधेन महदावृतः बाणजालैः समाच्छाद्यो वाच तं दारुणं वचः त्वया विष्णो मदीयां वै सेना बलाद गृहीता दैत्य नाहं तत्र स्थितो भवम् अधुना शस्त्रखादेन हतस्त्वं गच्छसि प्रभो मृत्योर्भुवनमुग्रं यन्न त्वां मुञ्चामि कर्हि चित् तदक्रोधसमाविष्टो दैत्यपम् चक्रे विलासि जखानाथच्रे समूर्द क्षणन सवधागत्य गृद विव्यादुष्ट सौ पद गरुाधरी तं धुवा दैत्यपुत्र सयौस्वस्थन मुतम पितरं प्रणनामाध पित्रा समानिदो भवद बद्ध्वापाश्चायर्महाविष्णुं चिक्षेप विपरे दैत्याहर्ष दैत्याहर्षसमयुक्ता जगर्जुश्च भयानकम् जोलुपश्च समागम्य शङ्करं वृषभध्वजम् उवाच कोपरक्षशृणुत्वं नीललोहित मदीयमधुलं सैन्यं त्वया युधिनिपातितम् अधुना त्वं हनिष्यामि भलदा भवाम्यहं ब्रुवन्तं तं तदोमूर्खं त्रिशूलेन जखानः मूर्चया भृशम् शुक्रेन सह सागत्य सावधानकृदोऽसुरः लोलुपो निर्ममे मायां सर्वदेवविमोहिनीम् अकस्माज्जलधि तत्र व्याप्त सर्वभयावहः अग्निश्च सर्वदा सर्वान् दाहयामास भैरवः नाना शस्त्रधरा अन्ये नग्नास्ते शूलपाणयः नग्ना स्त्रियश्च शस्त्रौखैर्मारयामासुरञ्जसा शङ्करो विस्मितो भूत्वा पश्चाद्भयसमन्वितः मोहिदो मायया तत्र लोलुपेनासुरेश्वर एतस्मिन्नन्तरे तत्र समुद्रे सर्वदस्थिते मामज्य तत्र देवेश शिवप्रह्लादमोहतः कर्मणा च तपोरूपेणेदं सर्वं कृतं मृधे मज्जन्तं शङ्करं धृत्वा लोलोपस्वस्थलं ययौ पित्रासौ मानितोत्यन्तं पाशैर्बद्ध्वा सदाशिवम् विवरे दैत्यो लोलुपः सर्वलोलुपः तदोहाहारवं देवा देवादेवागणामृधे शरणं जगदम्बां ते ययुः सन्त्रासतापिताः दैत्येन्द्राकर्षिता सर्वे जगर्जुर्घनवद्भृशं कुर्वन्दो वाद्यशब्दान्वै जयशब्दकराभृशम् ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषद्दि मौद्गले महापुराणे द्विदिये खण्डे एकदन्तचरिते शिवादिदेवपराजयो नामैकोन पञ्चाशत्तमोऽध्यायः ॐ